गरुडपुराणम् आचारकाण्डम् अध्यायम् एटिफोर् ब्रह्मोवाच उद्यतस्तुगयाम् गन्तुम् श्राद्धम् कृत्वा विधानदः विधाय कापडम् विश्रम् ग्रामस्याभिप्रदक्षिणम् तदो ग्रामान्तरम् गत्वा श्राद्धशेषस्य भोजनम् कृत्वा प्रदक्षिणम् गच्छेत् प्रदिग्रहविवर्जितः गृहाच्चलितमात्रस्य गयाम् गमनम् प्रदि स्वर्गारोहणसोपानम् पितॄणाम् तु पदे पदे मुण्डनम् चोपवासश्च सर्वतीर्थेष्वयम् विधिः वर्जयित्वा कुरुक्षेत्रं विशालं विरजाम् गयाम् दिवाच सर्वदा रात्रौ गयाम् श्राद्धकृद् भवेद वाराणस्याम् कृतम् तीर्थे शोननदे तथा पुनपुना पुना श्राद्धी स्वर्गं पितृ नयेद उत्तरमानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् तस्मिन्निवर्तयेच्छ्राद्धं स्नानं चैव निवर्तयेद कामान् सलभदे दिव्यान् मोक्षोपायं च सर्वशः दक्षिणम् मानसङ्गत्वा मौनीपिण्डादिकारयेत् ऋणत्रयापाकरणम् लभे दक्षिणमानसे सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः लेलिहानैर्महाघोरैर्क्षतैः पन्नगोत्तमैः नाम्ना कनकलं तीर्थम् त्रिषु लोकेषु विश्रुतम् उदीच्याम् मुण्डपृष्ठस्य देवर्षिगणसेवितम् तत्र स्नात्वादिवं यादिश्राद्धम् दत्तमधाक्षयम् सूर्यम् नत्वात्वितम् कुर्यात्कृतपिण्डादिसत्क्रियः कव्यवाहस्तथा सोमो यमश्चैवार्यमातथा अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः आगच्छन्तु महाभाग युषमाभिरक्षितास्त्विह मदीयाः पितरो ये कुले जादास्सनाभयः तेषाम् पिण्ड प्रदानार्थमागतोऽस्मि गयामि मां कृतपिण्डफल्गुतीर्थे पश्यैद्देवं पिदामहम् गदाधरं तदपश्येत् पितॄणामनृणा मनृणो भवेद फल्गुतीर्थे नरस्नत्वा दृष्ट्वा देवं गदाधरम् आत्मानं तारयेत् सद्यो दशपूर्वान् दशापरान् प्रथमेह्निविधिप्रोक्तो द्वितीयदिवसे व्रजेद् धर्मारण्यं मदङ्गस्य वाप्यां पिण्डादिकृत् भवेद धर्मारण्यं समासाद्यवाचपेयफलं लभेद राजसूयाश्वमेधाभ्याम् फलम् स्याद्ब्रह्मतीर्थके श्राद्धम् पिण्डोदकम् कार्यं मध्ये वै कूपयूपयोः कूपोदकेन तत्कार्यम् पितॄणाम् दत्तमक्षयम् तृतीयेह्निब्रह्म ब्रह्मसदो गत्वा स्नात्वाधतर्पणम् कृत्वा श्राद्धादिकम् पिण्डम् मध्ये वै यूपकूपयोः गोप्रचारसमीपस्था आभ्रह्मब्रह्मकल्पिताः तेषाम् सेवनमात्रेण पितरो यूपं प्रदक्षिणीकृत्य वाचपेयफलं लभेत फल्गुतीर्थे चतुर्देह्नि स्नात्वा देवादितर्पणम् कृत्वा श्राद्धम् गयाशीर्षे कुर्याद्रुद्रपदादिषु पिण्डान् देहि मुखे व्यास्ये पञ्चाग्नौ च पदत्रये सूर्येन्दुकार्तिके येषु कृतम् तथाक्षयम् श्राद्धम् तु नवदेवत्यम् कुर्याद्वादशदैवतम् अन्वष्टकासुवृद्धौ च गयाम् मृदवसरे अत्र माधुपृद्धक् श्राद्धमन्यत्र पदिना स्नात्वा दशाश्वमेधेतु दृष्ट्वा देवम् पिदामहम् रुद्रपादम् नरः स्पृष्ट्वा न चेहावर्तते पुनः त्रिर्वित्तपूर्णाम् पृथिवीम् दत्त्वा यद्फलमाप्नुयाद स स तत्फलमवाप्नोति कृत्वा श्राद्धम् गयाशिरे समीपत्र प्रमाणेन पितरो यान्तिदेवत्वम् नात्र कार्या विचारणा मुण्डपृष्ठे पदम् न्यस्तम् महादेवेन धीमदा अल्पेन तपसा तत्र महापुण्यमवाप्नुयाद गया शीर्षे तु यः पिण्डान्नाम्ना तु निर्वपेद नरकस्तादिवं यान्दिस्वर्गस्था मोक्षमाप्नुयुः पञ्चमेऽह्निर्गन्धा लोले स्नात्वा वडदले ततः पिण्डान् दद्यात्पितॄणां च सकलं तारयेत्कुलम् वडमूलं समासाद्यशाखेनोष्णोदकेन वा एकस्मिन् भोजिते विप्रकोटिर्भवदि भोजिताः कृते श्राद्धे क्षयवटे दृष्ट्वा च प्रपितामहम् अक्षयान् लभते लोकान् कुलानामुद्धरेच्छतम् येष्ठव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेद यजेद वाश्वमेधेन नीलम् वा वृषमुत्सृजेद प्रेतः कश्चित् समुद्दिश्य वणिजम् प्रेदभावाद्विमुक्तस्याम् स्वर्गदो धादुरेव च श्रुत्वा वणिग्गया शीर्षे प्रेदराजाय पिण्डकम् प्रददावनुजै सार्धम् स्वपितृभ्यस्तदो ददौ सर्वे मुक्ता विशालोऽपि सपुत्रो भूच्च पिण्डदः विशालायाम् विशालोऽद्भूद्राजपुत्रोऽब्रवीद्विजान् कथम् पुत्रादयस्युर्मे विप्राश्चोदुर्विशालकम् गयाम् पिण्डदानेन तव सर्वम् भविष्यति विशालोधगया शीर्ष पिण्डदोऽभूच्च पुत्रवान् दृष्ट्वा काशे सिदं रक्तम् कृष्णं पुरुषमब्रवीद के यूयम् तेषु चैवैकः सिद्धः प्रोचे विशालकम् अहंसिधस्ते जनक इन्द्रलोकं गतः शुभम् मम पुत्रपिता रक्त ब्रह्मपापकृत्परम् अयम् पितामह कृष्णऋषयोनेन खादिदाः अवीचीम् नरकम् प्राप्तौ मुक्तौ जातौ च कृतकृत्यो विशालोऽभिराज्यम् कृत्वा दिवम् ययौ ये स्मत कुले दुपिदरो लुप्त येस्मत्कुलेतरो दगक्रियाहा, ये चाप्यकृत चूडास्तु चाप्यकचूास्े चर्द्व्सा यो न क्रिया चेग्निद्धास्त भूमौ दत्न तृप्यं तृप्तायान्तु परां गदिम् पिता पितामहश्चैव तथैव प्रपिदामहः मादापितामही चैव तथैव प्रपिदामही तथा मादामहश्चैव प्रमादामह एव च वृद्धप्रमादामहश्च तथा मादामही परम् प्रमादामही तथा वृद्धप्रमादा महिदी वै अन्येषां चैव पिण्डोऽयमक्षय्यमुपतिष्ठताम् इति शा इति श्रीगारूडे महापुराणे आचारकाण्डे गयामाहात्म्यम् नाम चतुरशीतितमोऽध्यायः ओम् अध्यायम् 85 ब्रह्मो वाच स्नात्वा प्रयदशिलादौ वरुणास्थामृतेन च पिण्डम् दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान् अस्मत्कुले मृता ये च गतिर्येषाम् न विद्यते आवाह इष्येतान् सर्वान् दर्भपृष्ठे तिरोदकैः पितृवंश्ये मृता ये च मातृवंश्ये च ये मृताः तेषामुद्धरणार्थाय इमम् पिण्डम् ददाम्यहम् मादामहकुले ये जगदिर्येषां न विद्यते तेषामुद्धरणार्थाय इमम् पिण्डं ददाम्यहम् अजाददन्ता ये केचिद्ये जगर्भे प्रपीडिताः तेषामुद्धरणार्थाय इम ददाम्यहम् बन्धुवर्गश्च ये केचिन्नामगोत्रविवर्जितः सो स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते तेषामुद्धरणार्थाय इमपिण्डं ददाम्यहम् उद्बन्धनमृता च विष विषशस्रहदाश्च आत्मो ये आत्मोपखादिनो ये च तेभ्यः पिण्डम् ददाम्यहम् अग्निदाहे मृता ये च सिंहव्याक्रहदाश्च विद्युच्चौरहदाये च तेभ्यः पिण्डम् ददाम्यहम् रौरवे चान्धदामिस्त्रे कालसूत्रे चये ये गदाः तेषामुद्धरणार्थाय इमम् पिण्डम् ददाम्यहम् असिपत्रवने कोरे कुम्भीपाके चये गदाः तेषामुद्धरणार्थाय इमम् पिण्डम् ददाम्यहम् अन्येषां यादनास्थानाम् प्रेदलोकनिवासिनाम् तेषामुद्धरणार्थाय इमम् पिण्डम् ददाम्यहम् पशुयोनिम् गदा ये च पक्षिकीडसरीसृपाः अथवा वृक्षयो निस्थास्तेभ्यः पिण्डम् असङ्ख्ययादना संस्था येनीता यमशासनैः तेषामुद्धरणार्थाय इमम् पिण्डम् ददाम्यहम् जात्यन्तरसहस्रे शुभ्रमन्दि स्वेन कर्मणा मानुष्यम् दुर्लभम् येषाम् तेभ्यः पिण्डम् ददाम्यहम् ये बान्धवा बान्धवा वा येन जन्मनि बान्धवाः ते सर्वे तृप्तिमायान्तुपिण्डदानेन सर्वदा ये केचित्प्रेतरूपेण वर्धन्ते पितरो मम ते सर्वे तृप्तिमायान्तुपिण्डदानेन सर्वदा ये मे पितृकुले जादाकुले माधुस्तथैव गुरुश्वशुरबन्धूनां येचान्ये चान्ये बान्धवामृताः ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः क्रियालोपहता ये च जात्यन्धाः पङ्कवस्तथा विरूपा आमगर्भास् ज्ञादा ज्ञादा कुले मम तेषाम् पिण्डम् मया दत्तमक्षय्यमुपतिष्ठताम् साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तद्धा मया गयाम् समासाद्यपितॄणाम् निष्कृधिकृता आगतोऽहम् गयाम् देव पितृकार्ये गदाधर तन्मे साक्षी भवत्वद्य अनृणोः मृणत्रयाद महानदिब्रह्मसरोक्षयो वढप्रभासमुद्यन्तमहोगया शिरः सरस्वती धर्मकतेनु पृष्टा येदे कुरुक्षेत्रगदा गयाम् इति श्री गारुडे महापुराणे आचारकाण्डे गयामाहात्म्यम् नाम पञ्चाशीतितमोऽध्यायः ओम् अध्यायम् एयटिसिक्स् ब्रह्मोवाच येयम् प्रेतशिलाख्यादा गयाम् सा त्रिधा प्रभासे प्रेदकुण्डे जगया सुरशिरस्यपि धर्मेण धारिताभूत्यै सर्वदेवमयी शिला प्रेतत्वं ये गदा नॄणामित्राद्या बान्धवादयः तेषमुद्धरणार्थाय यथप्रेदशिलाशुभा अदोत्रमुनयो भूपाराजपत्न्यादय सदा तस्य शिलायां कर्तारो ब्रह्मलोकगाः गयासुरस्य यन्मुण्डम् तस्य पृष्ठे शिला यतः मुण्डपृष्ठो गिरिस्तस्मात् सर्वदेवमयोह्ययम् मुण्डपृष्ठस्य पादेषु यदो ब्रह्मसरोमुखाः अरविन्दवनं तेषु तेन चैवोपलक्षितः अरविन्दो गिरिर्नामक्रौञ्च पादाङ्गितो यदः तस्माद्गिरिक्रौञ्च पादपितॄणां ब्रह्मलो गदः गदाधरा दयो देवा आद्या आदौ व्यवस्थिताः शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला गया शिरश्चादयित्वा गुरुत्वादास्थिता शिला कालान्तरेण व्यक्तश्च स्थित आदिगदाधरः महारुद्रादिदेवैस्तु अनादिनिधनो हरिः धर्मसंरक्षणार्थाय अधर्मादिविनष्टये दैत्यराक्षसनाशार्थमस्य पूर्वं यथा भवत कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः यथा दाशरथि रामकृष्णो बुद्धोधकल्क्यपि तथा व्यक्तो व्यक्तरूपी आसीदादिर्गदाधरः आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यदः पाद्याद्यैर्गन्धपुष्पाद्यैर् अद आदिगदाधरः गदाधरं सुरैः सार्धमाद्यं गत्वा ददाति यः अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् दीपम् नैवैद्यमुत्कृष्टमाल्यानि विविधानि च वस्त्राणि मुकूटं खण्डां चामरम् प्रेक्षणीयकम् अलङ्कारादिकम् पिण्डमन्नदानादिकं तथा तेषाम् तावद्धनं धान्यमायुरारोग्यसम्पदः पुत्रादिसन्तधिः श्रेयो विद्यार्थम् काम ईप्सिदः भार्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् कुलीनः सत्त्वसम्पन्नो वधबन्धविनिर्मुक्तश्चान्दे मोक्षमवाग्नुयाद श्राद्धपिण्डादिकर्तारपितृभिर्ब्रह्मलोकगाः जगन्नाथं ये चयन्ति सुभद्रां बलभद्रकं ज्ञानं प्राप्य पुत्रां पुत्रान् व्रजन्ति पुरुषोत्तमराजस्य सूर्यस्य च गणस्य च पुरतस्तत्र पिण्डादिपितॄणां ब्रह्मलोकतः नत्वा कपर्दिविघ्नेशं सर्वविघ्नै प्रमुच्यते कार्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात् द्वादशादित्यमभ्यर्च्य सर्वरोगै प्रमुच्यते वैश्वानरम् समभ्यर्च्य उत्तमाम् दीप्तिमाप्नुयादेवम् पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् अभ्यर्च्येन्द्रम् महैश्वर्यम् गौरीम् सौभाग्यमाप्नुयाद विद्याम् सरस्वतीम् प्राच्य लक्ष्मीम् सम्पूज्य च श्रीयम् गरुडं च समभ्यर्च्य विघ्नवृन्दात् प्रमुच्यते क्षेत्रपालं समभ्यर्च्य ग्रह वृन्थै प्रमुच्यते मुण्डपृष्ठं समभ्यर्च्य सर्वकामवाप्नुयात् नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते ब्रह्माणम् पूजयित्वा च ब्रह्मलोकमवाप्नुयाद बलभद्रम् समभ्यर्च्य बलारोग्यमवाप्नुयाद सुभद्राम् पूजयित्वा तु सौभाग्यम् परमाप्नुयाद सर्वान् कामानवाप्नोदि सम्पूज्य पुरुषोत्तमम् नारायणं तु सम्पूज्य नराणामधिपो भवेद स्पृष्ट्वा नत्वा नारसिंहं सङ्ग्रामे भवेद वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयाद माला विद्याधरौ स्पृष्ट्वा विद्याधरपदं लभेद सर्वान कामान सर्वान् कामानवाप्नोदि सम्पूज्यादिगदाधरं सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयाद रुद्रेश्वरं नमस्कृत्य रुद्रलोके महीयते रामेश्वरं नरो नत्वा रामवत् सुप्रियो भवेद ब्रह्मेश्वरं नरस्तुत्वा ब्रह्मलोकाय कल्प्यते कालेश्वरं समभ्यर्च नरकालञ्जयो भवेद केदारं पूजयित्वा तु शिवलोके महीयते सिद्धेश्वरं च सिद्धो ब्रह्मपुरं व्रजेत् आद्यैरुद्रादिभिः सार्धं दृष्ट्वा ्यादि गदातरम् कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरम् नरः धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयाद कामान् सम्प्राप्नुयात् कामी मोक्षार्थी मोक्षमाप्नुयाद राज्यार्थो राज्यमाप्नोति शान्त्यार्थी शान्तिमाप्नुयात् सर्वार्थी सर्वमाप्नोति सम्पूज्यादिगदाधरं पुत्रान् पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम् श्राद्धेन पिण्डदानेन अन्नदानेन वारिदः ब्रह्मलोकमवाप्नोदिसम्पूज्यादिगदाधरम् पृथिव्याम् सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी तथा शिलादिरूपच्च श्रेष्ठश्चैव गदाधरः तस्मिन् दृष्टे शिला दृष्टा यतः सर्वम् गदाधरः इति श्रीगारूडे महापुराणे आचारकाण्डे गयामाहात्म्यम् नाम षडशीतितमोऽध्यायः ओ अध्यायम् 87 हरिरुवाच चतुर्दशमनून्वक्ष्ये तत्सुताश्च शुकादिकान् मनुस्वायम्भुवपूर्वमग्निक्राद्याश्च तत्सुताः मरीचिरत्र्यङ्गिरः सौ पुलत्यपुलः क्रदुः वसिष्ठश्च महातेजा ऋषयः सप्तकीर्तिताः जयाख्यास्याश्च मिदाख्याश्च शुक्रायामास्तथैव च गणद्वादशकाश्च इति चत्वारः सोमपायिनः सहदो विष्णुना दैत्यश्चक्रेण सुमहात्मना मनुस्वारोचिषश्चाध तत्पुत्रो मण्डलेश्वरः चैत्रकोविनतश्चैव कर्णान्दो विद्युतो रवीः बृहद्गुणो नभश्चैव महाबलपराक्रमः ऊर्जस्तम्भस्तथा प्राणर्षभो दत्तो लिच्छावरी वाञ्छष्यः सप्तकीर्तितः तुषिता द्वादशप्रोक्तास्तथा पारावताश्च ये इन्द्रो तद्रिभु तद्रिभुः पुरुहृत्सरः जखानफस्तिरूपेण भगवान् मधुसूदनः औत्तमस्य मनोपुत्रा आजश्च परशुस्तद्धा विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः देवो देवावृधो रुद्रमहोत्साहोजिदस्तद्धा रथौ जा ऊर्ध्वबाहुश्च शरणश्चानखो मुनिः सुतपाशङ्कुरित्येदे ऋषयः सप्तकीर्तिताः वशवर्तिस्वधामानशिवा सत्या प्रदर्दनाः पञ्चदेवगणप्रोक्ता सर्वे द्वादशकास्तु ते मत्स्यरूपी हरिर्विष्णुस्तं जखानजदानवं तामसस्य मनोः पुत्रा जानुजङ्घोधनिर्भयः नवख्यादिर्नयश्चैव प्रियभृत्यो विविक्षिवः हवुष्कधिप्रस्तलाक्षकृबन्धुः कृतस्तथा ज्योत्येर्धामा पृथुः काव्यश्चैत्रश्चेताग्निहेमकाः मुनयकीर्तिताः सप्त सुरागाः सुधियस्तधा हरयो देवतानाञ्चचत्वार पञ्चविंशपाः गणायिन्द्रशिविस्तस्य शत्रुर्भोम रथा स्मृताः हरिणा कूर्मरूपेण हेतो हरिणा कूर्मरूपेण हदो भीमरथोऽसुरः रैवतस्य मनो पुत्रो महाप्राणश्च साधकः वनबन्धुर्निरमित्रप्रत्यङ्घपरः शुचिः दृढव्रतकेतुशृङ्गमृषयस्तस्य वर्ण्यते वेदश्रीर्वेदबाहुश्च ऊर्ध्वबाहुस्तथैव च हिरण्यरोमापर्जन्यसत्य नेत्रस्वधाम च अभूत रजसश्चैव तथा देवाश्वमेधसः वैकुण्डस्ता वैकुण्डश्चामृतश्चैव चत्वारो देवता गणाः गणे चतुर्दशसुरा विभुरिन्द्रप्रदा भवान् शान्तः दैत्योहं दैत्योऽहंसरूपेण विष्णुना चाक्षुषस्य मनोपुत्रा उरुपुरुर्महाबलः शदद्युम्नस्तपस्वी च सत्यबाहु कृतिस्तथा अग्नेष्णुरधिरात्रश्च सुद्युम्नश्च तथा नरः हविष्मानुत्तमश्रीमान् स्वधामा अभिमानसहिष्णुश्च मधुश्रीर्षयस्मृताः आर्या प्रसूदाभाव्याश्च अष्टकस्य गणपञ्च तथा प्रोक्तादिवौकसाम् इन्द्रो मनोजवशत्रुर्महाकालो महाभुजः अश्वरूपेण सफदोहरिण लोकधारिण मनोर्वैवस्वतस्येदे पुत्रा विष्णुपरायणाः इक्ष्वाकुरधनभागो दृष्टशर्यादिरेवज नरिष्यन्तस्तथा पांशुर्नभो निर्दिष्ट एव च करूषश्च पृषध्रश्च स्युद्धिम्नश्च मनोऽसुधाः अत्रेर्वशिष्टो भगवाञ्जमदग्निश्च कश्यपः गौतमश्च भरद्वाजो विश्वामित्रोधसप्तमः तथा ह्येकोनपञ्चाशन्मरुदपरिकीर्तिताः आदित्यावसवत्साध्यागणा द्वादशकाश्रयः एकादश तथा रुद्रावसवोष्ठौ प्रकीर्तिताः द्वावश्विनौ विनिर्दिष्टौ विश्वे देवास्तथा दशा दशौवाङ्गिरसो देवान्नद दे नव देवगणास्तथा तेजस्वि नाम वैशक्रो हिरण्याक्षोरिपुस्मृतः अधोवराहरूपेण हरिण्याख्योध विष्णुनां वक्ष्ये मनोर्भविष्यस्य सावर्ण्याख्यस्य वैसुदान् विजय र्ववीरश्च निर्मोह सत्यवाकृतिः वरिष्ठश्च गरिष्ठश्च वाजः सङ्गदिरेव च अश्वमा कृपो व्यासो गालवो दीप्तिमानध ऋष्यशृङ्गस्तथा सुतपा अमृताभाश्च मुख्याश्चापि तथा तेषाम् गणस्तु देवाना मे कैगो विंशत स्मृतः विरोचनसुदस्तेषाम् बलिरिन्द्रो भविष्यदि दत्त्वे या या याजमानाय विष्णवे यः पदत्रयम् ऋद्धिमिन्द्रपदं हित्वा तद सिद्धिमवाप्स्यसि नवमस्य सुताञ्छृणो धृतिके दुर्दोक्तिकेधुपञ्चहस्तो निरामयः प्रधुश्रवा बृहदुद्युम्न बृहदुद्युम्न रुचीको बृहदो गुणः मेधातिथिर्द्युधिश्चैव सबलो वसुरेव च ज्योतिष्मान्हव्यकव्यौ च ऋषयो विभुरीश्वरः परोमरीचिर्गर्भश्च स्वधर्माणश्च देत्रयः देशकालकाक्षस्तद्धन्दा पद्मनाभकः भविष्यन्ति तदा देवा एकैको द्वादशो गणः तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुदो हर धर्मपुत्रस्य पुत्रांस्तु दशमस्य मनोशृणु सुक्षेत्रश्चोत्तमौजाश्च भूरिश्रेण्यश्च वीर्यवान् शतानीको निरमित्रो वृषसेनो जयद्रथः भूदिभ्युम्न सुवर्चाश्च शान्दिरिन्द्रप्रदापवान् अयो मूर्तिर्हविष्मांश्च सुकृदिष्ठ्याव्ययस्तथा नाभागो प्रदिमौजाश्च सौरभर्षयस्तथा प्राणाख्या शतसङ्ख्यास्तु देवतानाम् गणस्तदा तेषामिन्द्रश्च भविदा शान्तिर्नाम महाबलः बलिशत्रुस्तम् हरिश्च गदया खादयिष्यति रुद्रपुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु सर्वत्र गुशर्मा च देवानीकपुरुर्गुरुः क्षेत्रवर्णो दृढेषुश्च आर्द्रकपुत्रकस्तथा हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरौ विष्णुश्चैवग्नितेजाश्च ऋषयः सप्तकीर्तिताः विहङ्गमा का मङ्गमा निर्माणरुजयस्तथा एकैकत्रिंशकस्तेषाम् गणश्चन्द्रश्च गणश्चैन्द्रश्च वै वृषः दशग्रीवो रिपुस्तस्य श्रीरूपी खादयिष्यति मनोऽस्तु दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु देववानुपदेवश्च देवश्रेष्ठो विदूरधः मित्रवान्मित्रदेवश्च मित्रबिन्दुश्च वीर्यवान् मित्रवाहप्रवाहश्च दक्षपुत्र मनो सुदाः तपस्वी सुतपाश्चैव सुदा तपो धृतिर्द्युतिश्चान्यः सप्तमश्च तपो स्वधर्माणः सुतपसो हरिदो रोहितास्तथा सुरारयोगणश्च इदे प्रत्येकं दशको गणः रुदधामा च तद्रिभुः हरिर्नपुंसको भूत्वा खादयिष्यदि शङ्कर त्रयो दशस्य रौच्यस्य मनो पुत्रां निबोधमि चित्रसेनो विचित्रश्च तपो धर्मरदो धृतिः सुनेत्रः क्षेत्रवृत्तिश्च सुनयो धर्मपो दृढः धृतिमानव्ययश्चैव निशारूपो निरुत्सुकः निर्मोहस्तद्वदर्शो जर्षयः सप्तकीर्तिताः स्वरो माणस्वधर्माणः स्वकर्माणस्तधामराः त्रयत्रिंशद्विभेदास्ते देवानाम् तत्र वैगुणाः इन्द्रो दिवस्पदिः शत्रु त्विष्टुभो नाम दानवः मायूर्यण च रूपेण खादयिष्यति माधवः चतुर्दशस्य भौत्यस्य शृणुपुत्रान् मनोर्मम उरुर्गभीरो दृष्टश्च तरस्वीग्राह एव च अभिमानिप्रवीरश्च जिष्णुः सङ्क्रन्दनस्तद्धा दुर्लभश्चैव भौत्यस्यैदे मनो सुताः अग्नीद्रश्चाग्निबाहुश्च मागधश्च तधा शुजिः अजिदो मोक्त शुक्रौ च ऋषयः सप्तकीर्तिताः चक्षुषा कर्मनिष्ठाश्च वचावृधा देवगणा पञ्चप्रोक्तास्तु सप्तकाः शुचिरिन्द्रो महादैत्यो रिपुहन्ता हरिस्वयं एको देवश्च दुर्धा दुव्यासरूपेण विष्णुना कृतस्तधपुराणानि विद्याश्चाष्टा दशैवदो अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः पुराणम् धर्मशास्त्रम् च आयुर्वेदार्थशास्त्रकम् धनुर्वेदश्च गांधर्वो विद्या ह्यष्टादशैव ताः इति श्रीगारूढे महापुराणे आचारकाण्डे मनुतद्वंशनिरूपणम् नाम सप्ताशीदितमोऽध्यायः ओ अध्यायम् एटि एय्ट् सूत उवाच हरिर्मन्वन्तराण्याः ब्रह्मादिभ्यो हराय च पिदृस्तोत्रम् क्रौञ्चोकिम् प्राहतश्रुणु मार्कण्डेय उवाच रुचिप्रजा पधिपूर्वं पूर्वम् निर्ममो निरसङ्कृधिः अत्रस्तोमिदमायी च चचारपृथिवीमिमाम् अनग्निमनिकेदम् तमेकाहारमनाश्रमम् विमुक्तसङ्गं तम् दृष्ट्वा प्रोजुस्वपितरो मुनिम् पितर ऊचुः वत्स कस्मात् त्वया पुण्यो न कृदोदारसङ्ग्रहः स्वर्गापवर्गभेदुक्त्वा निष्यं विना गृही समस्तदेवानां पितॄणाम् च तथार्हणम् ऋषीणामर्थिनाम् चैव कुर्वल्लोकानवाप्नुयाद स्वाहोच्चारणदोदेवान् स्वध्वोच्चारणदपिदृन् विभजत्यन्नदानेन भृत्याद्यानतिथीनपि सत्त्वम् दैव दृढद्वन्द्वमि मम स्म दृणादपि अवाप्तोसि मनुष्यर्षे भूदेभ्यश्च दिने दिने अनुत्पाद्य सुदान् देवानः सन्तर्प्यपिदृंस्तथा अकृत्वा च पथं मौण्ड्यं स्वर्गदिं प्राप्तुमिच्छसि क्लेशबोधैककम् पुत्रम् अन्यायेन भवेत्तव मृतस्य नरकम् त्यक्त्वा क्लेशम् एवान्यजन्मनि रुचिरुवाच परिग्रहो दिदुःखाय पापायाधो गतेस्तथा भवत्यदो मया पूर्वम् न कृदोदारसङ्ग्रहः स्वमुक्तिहे दुर्न भवत्यसावपि परिग्रहाद् प्रक्षाल्यते नुदिवसं य आत्मा निष्परिग्रहः मम त्वपङ्गदिग्धोऽपि विद्याम्भोभिर्वरं अनेक तत् अनेकभवसम्भूतकर्म पङ्गाङ्कितो बुधैः आत्मातत्त्वज्ञानतो ह्यै प्रक्षाल्यो नियतेन्द्रियैः पितर ऊचुः युक्तम् प्रक्षालनम् कर्तुमात्मनोऽपि यदेन्द्रियैः किन्तु नोपायमार्गोऽयम् यदत्त्वं पुत्र वर्तसे पञ्चयज्ञैस्तपो दानैरशुभम् नुतस्तव फलाभिसन्धिरहितैपूर्वकम् शुभा शुभैः एवं न बन्धो भवति कुर्वधः कारणात्मकम् न च बन्धाय तत्कर्म भवत्यनदि सुख पूर्वकर्मकृतम् भोगैः क्षीयदेह्यनिषन्द सुखदुःखात्मकैर्वत्सपुण्या पुण्यात्मकम् नृनाम् एवम् प्रक्षाल्यते प्राज्ञैरात्मा बन्धाश्च रक्ष्यते रक्ष्यश्च स्वविवेकैर्नपापङ्गेन दह्यते रुचिरुवाच अविद्यापच्यदे वेदे कर्ममार्गात् पितामहाः तत्कथम् कर्मणो मार्गे भवन्तो योजयन्ति माम् पितर ऊचुः अविद्या सर्वमेवैतत्कर्मणैतन्मृषावचः किन्तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः विहिता करणानर्थो न सद्भिः क्रियते संयमो मुक्तये योन्यप्रत्युताधो गतिप्रतः प्रक्षालयामिति भवान्यदे तन्मन्येवरम् विहिताकरणोद्भूतै पापैस्त्वमपि दह्यसे अविद्याप्युपकाराय विषवजाय ते नृणाम् अनुष्ठानाभ्युपायेन बन्धयोग्यापि नो हि सा तस्माद्वत्सपुरुष्वत्वम् विधिवद्दार सङ्ग्रहम् आजन्म विफलन्तेस्तु असम्प्राप्यान्यलौकिकम् रुचिरुवाच वृद्धोऽहम् साम्प्रदम् कोमेऽपिदरः सम्प्रदास्यदि भार्यान्तधादरुद्रस्य दुष्करोदारसङ्ग्रहः पितर ऊचुः अस्माकम् पदनम् वत्स भवतश्चाप्यधोगदिः नूनम् वा विभवित्री च नाभिनन्दसिनो वचः इत्युक्त्वा पितरस्तस्य पश्यदो मुनिसत्तम बभुवुसहसादृश्यादिपावादहदा इव मुनिक्रौञ्चुकये प्राह मार्कण्डेयो महातपाः रुचिवृत्तान्तमखिलम् पितृसंवादलक्षणम् इति श्रीगारूडे महापुराणे आचार्यकाण्डे कर्मज्ञानाम कर्मज्ञानमानामाष्टाशीतितमोऽध्यायः ओम् अध्यायम् एट्टी नैन् सूत उवाच पृष्ठक्रञ्च्युगिनो उवाच मार्कण्डेयः पुनश्च सतेन पितृवाक्येन भृशमुद्वग्नमानसः कन्याभिलाषी विप्रर्षि परिबभ्राम कन्या कन्यामलभमानोऽसौ पितृवाक्येन दीपितः चिन्तामवापमहीतमती वोद्विग्नमानसः किं करोमि क्व गच्छामि कथं मे दारसङ्ग्रहः क्षिप्रं भवेन्मत्पितॄणां ममाभ्युदयकारकम् इति चिन्तयतः तस्य मतिर्जादा महात्मनः तपसा राधयाम्येनम् ब्रह्माणम् कमलोद्भवम् ततो वर्षशतं दिव्यं तपस्ते पे महामनः तत्र कालं वनेषु नियमस्थितः आराधनाय स तदा परं नियममास्थितः तद प्रदर्शयामास ब्रह्मालोकपितामहः उवाचाधप्रसन्नोऽस्मि त्युच्यतामभिवाञ्छितम् ततोऽसौ प्रणिपत्याख ब्रह्माणं जगदो गतिं पितॄणां वचनात् तेन यत् कर्तुमभिवाञ्छितम् ब्रह्मोवाच प्रजापतित्वम् भविता स्रष्टव्या भवदा प्रजाः स्रष्ट्वा प्रजा सुदान्विप्रसमुत्वाद्यक्रियास्तथा कृत्वा कृताधिकारस्त्वम् तदसिद्धिमवाप्स्यसि सत्त्वम् यथोक्तम् विदृभित् कुरुदारपरिग्रहम् कामम् चेममभिध्याय क्रियताम् पितृगूचनम् त एव तुष्टा पितरप्रदास्यन्ति तवेप्सितम् पत्नीम् सुतांश्च सन्तुष्टा किं न दध्युप्तामहाः मार्कण्डेय उवाच इत्यर्शिर्वचनम् श्रुत्वा ब्रह्मणो व्यकृतजन्मनः नद्या विविकृते चकार पितृतर्पणम् तुष्टावच पितृन्विप्रस्थवैरेभिरधादृदः एकाग्रप्रयदो भूत्वा भक्तिन्नम्रात्मकन्धरः रुचिरुवाच नमस्येकम् पितृन्भक्त्या एव सन्त्यधिदेवतम् देवैरपिः तर्प्यन्ते ये, दे ये श्राद्धे शुस्वधोत्तरैः नमस्येकं पितृन् स्वर्गे ये तर्प्यन्ते महर्षिभिः श्राद्धैर्मनोमयैर्भक्त्या भुक्ति मुक्तिमभीप्सुभिः नमस्येकम् पितृन् स्वर्गे सिद्धाः सन्तर्पयन्ती यान् श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः नमस्येहम् पितृन्भक्र्यायर्च्यन्ते गुह्यतैर्दिवी तन्मयत्वेन वाञ्छभिद्रुद्धि मात्यन्ति किम् पराम् नमस्येहम् पितृन्मर्त्यैरर्च्यन्ते भुवि ये सदा श्राद्धे श्रुश्रद्धयाभीष्टलोकपुष्टिप्रदायिनः नमस्येकम् पितृन्विप्रैरर्च्यन्ते भुवि ये सदा वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः नमस्येकम् पितॄन्येवैतर्प्यन्तेरण्यवासिभिः वन्यैः श्राद्धैर्यदाहारैस्तपो निर्धूतकल्मषैः नमस्येकम् पितृन्विप्रैर्नैष्टिकैर्धर्मचारिभिः ये संयतात्मभिर्नित्यम् सन्दर्प्यन्ते समाधिभिः नमस्येकम् पितृश्राद्धै राजन्यास्तर्पयन्तीयान् कव्यैरशेषैर्विधिवल्लोकध्वजफलप्रदान् नमस्येकम् पितृन्वैश्य रर्च्यन्ते भुवि ये सदा स्वकर्माभिरतैर्नित्यम् पुष्पधूपान्नवाजिभिः नमस्येकम् पितृश्राद्धे शूद्रैरपि च भक्तितः सन्तर्प्यते जगत्कृष्णम् नाम्नाख्यादा सुपालिनः नमस्येकम् पितृश्राद्धे पादाले ये महासुरैः सन्दर्प्यन्ते सुधाहारस्त्यकृतदम्भमदैः सदा नमस्येकम् पितृश्राद्धैरर्च्यन्ते ये रसाकले भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः नमस्येकं पितृश्राद्धै सर्पै सन्दर्पितान् सदा तत्रैव विधिवन्मन्त्र देव सम्पत्समन्वितैः पितृन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेधमहीतलेव तथान्तरिक्षेजसुरारिपूज्यास्ते वै प्रतीच्छन्तु मयो बनीतम् पितृन्नमस्ये परमार्थभूताय वैविमाने निवसन्त्यमूर्ताः यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराक्लेश्य विमुक्तिहेतून् पितृन्नमस्ये दिवि ये च मूर्ता संहितेषु तृप्यन्तु तेऽस्मिन् पितरः समस्ता इच्छावदां ये प्रदिशन्ति कामान् वा गजाश्वरत्नानि महागृहाणि सोमस्य ये रश्मिषु योर्कबिम्बे शुक्ले विमाने च सदा वसन्ति तृप्यन्तु तेऽस्मिन्पितरोन्नतो यैर्गन्धादिना पुष्टिमिदो व्रजन्तु येषाम् हुदेग्नौहविषाजतृप्तिर्ये भुञ्जदेविप्रशरीरसंस्थाः ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोन्नतो यैः ये खड्गमांसेन सुरैरभीष्ठै कृष्णैः स्थिलैर् दिव्यमनोहरैश्च कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्रयान्तु कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानां तेषाञसान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु दिने दिने प्रदि गृह्णतेऽर्चा मासान्तपूज्या भुवि ज्येष्टकासु ये वत्सरान्तेभ्युतये जूज्या प्रयान्तु ते मे पितरोऽत्र तुष्टिं पूज्या द्विजानां कुमुदेन्दुभासु ये क्षत्रियाणां ज्वलनार्कवर्णाः तथा विशाम् ये कनकावदादा नीलीप्रभा शूद्रजनस्य ये च तेऽस्मिन् समस्ता मम पुष्पगन्धधूपाम्बुजो देवाम्बुभोज्यादिनिवेदनेन तथाग्निहोमेन च यान्तितृप्तिम् सदा पितृभ्य प्रणतोऽस्मि तेभ्यः ये देव पूर्वाण्यभितृप्ति हेतोरश्रन्धिकव्यानि शुभाहृदानि तृप्ताश्च सृजो भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मितेभ्यः रक्षांसि भूतान्यसुरांस्तदोग्राक्रिर्ना शयन्तु त्वशिवं प्रजानाम् आद्यासुराणामरेशपूज्यास्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः अग्निष्वात्ता बर्हिषदा आद्यपाः सोमपास्तद्धा व्रजन्तु तृप्तिम् श्राद्धेऽस्मिन् पितरस्तर्पिता मया अग्निष्वात्तापि पितृघणा प्राजीम् रक्षन्तु मेदिश्यम् तथा प्रतीचिमाज्यपास्तद्वदुदीचीमपि सोमपाः रक्षोभूदपि सा चेभ्यस्तथवासुरदोषधः सर्वदा पितरो रक्षाम् कुर्वन्तु मम निश्चितः कुर्वन्तु मम नित्यशः विश्वो विश्वभुगराध्यो धर्मो धन्यशुभाननः भूदितो भूदिकृद्भूदिपितॄणाङ्गे गणानव कल्याणकल्यदकर्ताकल्यक्कल्यतराश्रयः कल्यदाहे दुरन्कक्षढिमे ते गणास्मृताः वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा विश्वपादा तथा दादासप्तैते च गणास्मृताः महान् महात्मा महिदो महिमावान्महाबलः गणापञ्च तथैव वैदे पितॄणां पापनाशनाः सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूदितः पितॄणाम् पद्यते चैव तथा गणचतुष्टयम् एकत्रिंशत्पितृगणायैर्व्याप्तमखिलं जगद स एव अत्र पितृगणा स्तुष्यन्तु जदाहिताद मार्कण्डेय उवाच एवं तुस्तुवतस्तस्य ते जोराशिरुच्छ्रिदः प्रादुर्बभूव सहसा गगनव्याप्तिकारकः तद्दृष्ट्वा सुमहत्तेजसमाच्छाद्यस्थितं जा, जगद जानुभ्यामवनीम् गत्वा रुचिस्तोत्रमिदं गजौ शुचि स्तोत्रमिदं जगौ रुचिरुवाच अर्चितानाम् मूर्तानाम् पितॄणाम् दीप्ततेजसाम् नमस्यामि सदा तेषाम् ध्यानिनाम् दिव्यचक्षुषाम् इन्द्रादीनाम् च नेतारो दक्षमारीचयोस्तथा सप्तर्षोणाम् तथान्येषाम् तान्नमस्यामि कामदान् मन्वादीनां च नेदारसूर्याचन्द्रमसोस्तथा तान्नमस्याम्यहं सर्वान् पितॄनाप्युदधावपि नक्षत्राणां ग्रहाणां च वा इवग्न्योर्नभसस्तथा द्यावा पृथिव्योश्च नमस्यामि कृताञ्जलिः प्रजा पदे कश्यपाय सोमाय वरुणाय च योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु भुवे नमस्यामि ब्रह्मणे योगचक्षुषे सोमाधारान् पितृगणान्योगमूर्ति धरांस्तथा नमस्यामि तथा सोमं पितरं जगदामहम् अग्निरूपांस्तथवान्यान् नमस्यामि पितॄनहम् अग्निसोममयम् विश्वं यद एतदशेषदः ये च तेजसि दा ये सोम सोमसूर्याग्निमूर्तयः जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः तेभ्यो किलेभ्यो योगिभ्य पिदृभ्यो यदमानसः नमो नमो नमस्ते स्तु प्रसीदन्तु स्वधा भुजः मार्कण्डेय उवाच येवं स्तुतास्तदस्तेन तेजसो मुनिसप्तमाः निश्चक्रमुस्तेऽपिदरो भासयन्तो दिशो दश निवेदनञ्चयत्तेन पुष्पगन्धानुलेपनं तद्भूषिता नद स तान्ददृश्ये प्रणिपत्यरुजभक्त्या पुनरेव कृताञ्जलिः नमस्तुभ्यम् नमस्तुभ्यमित्याह पृथगादृतः तदप्रसन्नापितरस्तमोचुर्मुनि सत्तमम् वरम् वृणीष्वेदि स तानुवाच नतकन्धरः रुचिरुवाच प्रजानाम् सर्गकर्तृत्वमादिष्टम् ब्रह्मणा मम सोऽपत्नीमभीप्सामि धन्यां दिव्यां प्रजावदीम पितर ऊचुः अत्रैव सद्यपत्नीदे भवत्वतिमनोहरा तस्याञ्च पुत्रो भविता भवदो मुनिसत्तम मन्वन्तराधिभो धीमां स्त्वन्नाम् नैवोपलक्षितः रुचेरौच्य यदि ख्यादिं प्रयास्यति जगत्रये बहवपुत्र महाबलपराक्रष्य महात्मा पिपालमच प्रजापतिर्भूवा प्रजा सृष्टा चुर्विधा क्षीणाधर्मज सत्मस स्टोत्रेण नरो योस्माष्य दिद तस्य भोगानात्मजं ध्यानमुत्तमं ध्यानमुत्तमम् आयुरारोग्यमर्थम् च पुत्रपौत्रादिकम् तथा वाञ्छद्भिः सतदम् स्तव्या स्तोत्रेणानेन वैयदः श्राद्धेषु य इमम् भक्त्या तस्मत्प्रीतिकरम् स्तवम् पठिष्यति द्विजाग्रयाणाम् भुञ्जताम् पुरदस्थिदः स्तोत्रश्रवणसम्प्रीत्या सन्निधाने परे हृदे अस्माभिरक्षयम् श्राद्धम् तद्भविष्यत्यः संशयम् यद्यप्यश्रोत्रियं श्राद्धम् यद्यप्युपहतम् भवेद अन्यायो पातवित्तेन यदि वा कृतमन्यथा अश्राद्धार्हैरुपतैरुपहारैस्तथा कृतैः अकालेऽप्यथवा देशे विधि न मथापि वा अश्रद्धया पुरुषदम्भमाश्रित्य यत्कृतम् अस्माकं तृप्तये श्राद्ध तथाप्येतदुदीरणाद यत्रैतत्पठ्यते श्राद्धे स्तोत्र मस्तत् सुखावहम् अस्माकम् जायते तृप्तिस्तत्र द्वादशावर्षिकी हे मन्दे द्वादशाब्दानि तृप्तिमेतत् प्रयच्छति शिशिरे द्विगुणाब्दानि तृप्तिम् स्तोत्रमिदं शुभं वसन्दे षोडच समातृप्तये श्राद्धकर्मणि ग्रीष्मे च तृप्तिकारकम् विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते वर्षासु तृप्तिरस्माकमक्षय्या जायते रुजे शरत्कालेऽपि पठितम् श्राद्धकाले प्रयच्छति अस्माकमेतत्पुरुषै तृप्तिम् पञ्चदशाब्दिकीम् यस्मिन् गेहे च लिखितमेतत्तिष्ठति नित्यदा सन्निधानम् कृते श्राद्धे तत्र अस्माकम् भविष्यति तस्मादे दत्त्वया श्राद्धे विप्राणाम् भुञ्जदाम्बुरः श्रावणीयम् महाभाग अस्माकम् पुष्टिकारकम् यदि श्रीगारूडे महापुराणे आचार्यकाण्डे रुचिकृदपि दृष्टोत्रम् नामैको नवतितमोऽध्यायः ॐ